मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं 14 द्वारयात्रावर्णनं श्रीगणेशाय नमः भृषुण्ड्युवाच पुराकल्पभवां सर्वां कथयामि कथां पराम् सङ्क्षेपेण महाभागाशृणुध्वं भक्रिसंयुताः काचिद्विप्रस्य भार्यादुपीडिता दुर्जनैः पुरा सा सदीभावरक्षार्थं यत्नयुक्ता बभूवः वनेपदिविहीना सा तानुवाच महाकलान् अद्य प्रारभ्य वश्चाह्निपञ्चमे स्त्री भवाम्यहं सत्यं वाक्यं न सन्देहो गच्छध्वं वनवासिनः एवमुक्ता mm -hmm. गदाश्चौरा हर्षिदा स्वगृहं तदः सावने वने शोकसंयुक्ता विचारमकरोत् तदा यज्ञार्थं यजमानस्य भर्ता मे सङ्गतो भवत करोमि समीपस्तं समीपस्थं गच्छामि च मयूरकं तत्र धर्मस्य संस्थानं वर्तते नात्र संशयः यात्रामात्रेण तत्रैव स्वस्वधर्मप्रलभ्यते एवं विचार्य सा मयूरेशं जगामः स्नात्वा गणेशतीर्थे सा सम्पूज्य गणनायकं पूर्वद्वारस्थितां शक्रिं सर्वयुक्तां पुपूजः पुनश्चैव मयूरेशं पूजयित्वा विधानतः सत्यसम्पालनार्थाय स्वगृहं तत्क्षणाद्ययौ तदस्तेव नगादुष्टास्तां ययौ पञ्चमेहनी सा सस्मारगणेशानां धर्मशक्तियुदम्परं तस्या स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह सा विस्मिता गणेशा नममन्यद विशेषतः मृता सा धर्मशक्तिस्थं गणेशं चिन्त्यमानदा विकुण्ठमगमत्सा वै विष्णुना मानिदा भृशं पुनकल्पे कल्पे मयूरे सा पदियुक्ता बभूवः ब्राह्मणीतं पुनर्भक्रिया सिषेवे धर्मतत्परा अन्दे स्वानन्दगा चैव बभूवे देवनायिका ब्रह्मभूदा महाभक्त्या पत्या युक्ता महाद्भुतं एवं नानाजनास्तत्र नानावर्णसमुद्भवाः नरा नार्यश्च देवाश्च महासिद्धिं प्रलेभिरे अन्यच्च दक्षिणद्वारसंस्थां शृणुत चादरात् येन संशयहीनाश्च भविष्यध विशेषतः मद्रदेशमहीपालशास्त्रज्ञो बलसंयुधः बभूव सर्विज सखा। कदा सा मीडिदित नृप् न समर्थो बभूव तग्रहणे बलाद तथोिशोक संयुक्त राज्यम त्यक्वा महामति जगाममुनिशार्दूलं शौनकं कर्मसिद्धये ज्ञात्वा वृत्तान्तमेवं तु तस्य राज्ञश्च शौनकः जगादगच्छराजेन्द्रमयूरेशं सुसिद्धितं तत्र दक्षिणभागे दुद्वारमर्थात्मकं परं यात्रामात्रेण सर्वार्थदायकम् तत्समाचर प्रणम्य भद्रसेनस्तं समागतः दक्षिणद्वारकां यात्रां चकार भक्ृसंयुधः पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः जित्वा सर्वान् भद्रसेन शत्रून् राज्यं चकारः यात्रा विधानेन समर्थो जायते नरः स्वस्वजातिभवं देवा अर्थं विन्ददि निश्चितम् ततसोऽपि गणेशानां दक्षिणद्वारकं सदा भुञ्जानो भोगमभजन् मृधकैलासगो भवत पुनर्वैश्यो भवत्सोऽपि मयूरे देवसतमाः नित्यं गणेश्वरं देवेम भजद्भक्तिसंयुधः अन्ते स्वानन्दगो भूत्वा क्षेत्रे मरणतस्वयं ब्रह्मभूतः स वैश्योऽपि नाम्नामेको बभूवः एवं नानाजनादेव र्धयुक्ता बभूविरे तत्रैवं कदिवो ब्रूयां शक्यते न मया क्वचिद अधुना पश्चिमद्वारसम्भूतं कथयाम्यहं चरित्रं सर्वभावज्ञाशृणुध्वं परमार्थतं भारके नगरे रोगादिभिर्वैश्य प्रपीडितः दरिद्रो भोगहीनश्च सामो नाम्ना बभूवः तेन स्कन्दपुराणस्थं माहात्म्यं संश्रुतं कदा स्वानन्दक्षेत्रजं तेन विस्मितः प्रबभूवः देवास्समाग्रतो यत्रार्थं यथा शास्त्रं विधानेन तीर्थदेवं पुपूजः अतीव पीडितसोपि रोगैस्तेन चकारः दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थितां ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुधः स्वगृहं पुनरागत्य वैश्यवृत्तिं चकारः धनाढ्यः स बभूवापि सर्वमान्यसुरेश्वरः पश्चिमद्वारसंयुक्तमभजद्गणनायकं स्वगृहे भोगसंयुक्तो भुभुजे विविधान् रसान् अन्धे जगाम शक्रे लोकं परमसौख्यदं पुनक्षेत्रे क्षेत्रे बभूवा बिभ्राह्मणो वेदपारगः मयूरे गणनाथं स शिव शर्मा भजत्परं क्षेत्रसन्न्यासभावेन मयूरेशं समाश्रितः अन्धे स्वानन्दगो भूत्वा ब्रह्मभूतो बभूवः अधोत्तरभवां यात्रां शृणुध्वं देवसतमाहां कर्णाडे शूद्रजाधिस्थो बभूवे भीमनामकः कदा श्रुत्वा पुराणं स खेदयुक्तो बभूवः व्यर्थं मायामयं सर्वं तत्यजाम्यहमादराद मुक्तिसम्पूर्णभवेन लभ्यतेकेन कर्मणा तदेव साधनीयं वै मया मानवदेहिना ततो बभ्रामादिखेदसंयुक्तो यत्र तत्र वने ददर्श शूद्रः विश्वामित्रं तपोधनम् तं प्रणम्यस्तिदस्तत्र बभौ केनापि सत्कृतः पप्र च मुक्दिदं मार्गं तं जगादस हर्षितः विश्वामित्र उवाच महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः अनेकजन्मसम्भुदैर्नरो मुक्तिमवाप्नुयाद अदो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज उत्तरद्वारकां यात्रां कुरु मुक्तिमवाप्स्यसि आयासेनविहीनस्तु मुक्तिं तत्रैवमाप्नुयाः माकेदं कुरु शूद्रत्वं गच्छ गच्छ महाज्ञया भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ उत्तरद्वारकां यात्रां चकारविधिसंयुधः अत्यन्तलोलुपत्वात् स मुक्तिद्वारं चकारः पुनः स्वगृहमागत्य चकार कर्म देहजं स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः त्रिवर्णस्थजनानां वै सेवां चकारकर्षितः मुक्तियुक्तं गणेशानमभजन्नित्यमादराद अन्धे जगामसूर्यस्य लोकम् तेजोमयम् परम् तथ क्रमेण शूद्रः स शुक्लगत्या महेश्वराः मोक्षरूपो बभूवापि क्षेत्रयात्राप्रभावदः एवम् नानाविधास्तत्र मुक्तिम् प्राप्ता विशेषदः तेषाम् मया चरित्रम् यत्तद्वक्तृम् न अध देवेश्वरापूर्णां यात्रां द्वारसमाश्रितां कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीं मालवें त्यजजाधिष्ठो बभूवे दुन्दुभिस्वनः नाम्नाख्यातश्च पाभात्मा विचचारमहीतलम् द्रव्यलोभी नराधींश्च हत्वा कोढरगो भवेद मुमोच ब्राह्मणं सोऽपि न गां द्वैश्यो पापनिश्चयः कदाचिन्मार्गः कश्चिद्वैश्यो द्रव्यसमन्वितः मालवदण्डकारण्यं सदृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितं नानाजनैश्च सङ्कीर्णं तमनुप्रयौ कलह वैश्यं क्रमेण देवेश मयूरेशं समागतम् अनुतं सोऽपि दुर्बुद्धिराय यौ दुन्दुभिस्वनः स वैश्यो यात्रायां निरदो भवद अन्ध्यजोऽपि तथा तत्र यात्रां तेन चकारः चतुर्द्वाराणि कृत्वा दुःसंस्थिता विविधा जनाः चाण्डालस्तत्र मायूरे तद्वत्स्थौ सवै कलः ततस्तस्य च दुर्बुद्धिर्बुद्धिभेदो बभूवः विचारमकरो चित्ते स स्वयं मयादि अहोमयादिमूर्खेण पापं नानाविधं कृतं कागदेर्मरणे मेदु भविष्यदि सुदारुणां तदो वैश्यं प्रणम्यैव गतस्वस्थानमादराद स्वधर्मसंयुतो भूत्वा चकार कर्मदे पूर्वद्वारजपुण्येन स्वधर्माचारसंयुतः दक्षिणद्वारजेनैव सतायुक्तो पश्चिमद्वारपुण्येन रोगाद्याभिविवर्जितः धनाढ्यो भोगान् बुभुजेसौ सुहृद्वृदः उत्तरद्वारजेनैव यात्राया फलरूपिणा महामोक्षं शुक्लगत्यां त्यजो महेश्वराः न शक्यते मया चरित्रं द्वारकारिणाम् नानावर्णाश्रमे संस्ताश्चुर्वर्गयुता बभुः नारीनरपशुस्तश्च जीवस्तत्र समागतः द्वारयात्रां दुः कुर्यात् स चतुर्विधं फलं लभेद यदि द्वारस्य यात्रायाश्चरितं सफलं कर्म सम्भवेद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्महोद्गले महापुराणे षष्ठे खण्डे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॐ